मम् प्रथमपयम् तस्मिन् नैवतेन लोके प्रयच्छन्ति गो स्वामन्त्री अमुनयम् सञ्जलक्षगेवदेन प्रयच्छन् चायस्व मन्त्री अमुदयम् सवक्षिम् नैवतेन लोके प्रयज्छन्ति अम्बावज्जौरञ्जलक्षम् गौरसायुविम् सोमानुभयम् चेष्टैवतम् लोकेन देशप्रतीर्थम् गायम् विलेदक्षुता ौनत्व भग्रमे लोचमेवावन्द्रता भवन् यक्षुत्वं मासाय वै रक्ष्योमावहिताध्ययनेन यद्यतेन सहेलं शक्रमेव समानो हन्तरि स्वस्य मले सहेलयं परिलिष्टन्ते भयवराज्योदितायञ्च भैरेवन्तोऽयं च जोष अवदस्तानि द्वादशाः सम्पद्यन्ते द्वादशाव पुरुषाक्य भक्षोक्तौ बाहो आत्मादिष्टदत्तायङ्गा हिस्तनो द्वादशो दत्पुरुषोऽवर्यावस्तन्ते छेष्ठादशानि सम्पद्यन्ते न पान्यानि न पाण्य प्राणास्तपर्यावर्तम् च चत्वारश्वदः भवन्तिरा सुर्विकुशदिरः सम्भव्यम् च दुर्विकुशदिरथमासाप्तम् मत्सरस्तरमनुपर्यावर्तम् च फलिशिरस्तम् मत्फलयति पुलवाचारित्यैना तद्वैतम् मत्सरस्य ब्राह्मण्यामुन्मासो मासिमास्त्येवम् चोयन्ति मेढस्वावलवैलवदलोभिरङ्गेवलवध्यापर्णा ब्रह्मणः प्रक्षो मेधैलम् जग्राधश्चयतेयम्प्रवत्रो मे हवन्तेयस्थावन्तेयस्तावन्त प्रियङ्का प्रियाम् महिक्षमानाम् निधीनाम् कार्यभिवजनो हलामेव ्या दाः कौल्या भस्ताः विहव्याः भक्ताः saha asavagastana rayesupadendradestaha ubhyagyasahadarma bhasva जस्ताः महन्दे जस्ताः परिवहन्त्ये जस्वाः भवन्तम् महन्दे जस्त्वाः ले गन्महन्ते जत्वाः भीमम् महन्ते जत्वाः गन् महन्दे जस्त्वाः भीमम् अञ्जन पञ्चमप्रहन् सम्भवो वैजा अलकेवाय देवो नवसौरमणं सये भद्रा इन्द्रस्त्रादयः अविकंक्लेयं क्रोधोदजुनदेवकीमरिमान गुहलाकम्से चहारे वक्रमं सौनारयवंतजतरन्तं मेघजधादे नवलै जैनोमो यस्वाहाय स्वाहाय स्वाहासन्न्यास्तिमन्त लोकायेन मयिन्यमाना श्रेन्द्रः निधाना गच्छासान्तस्वाहे हरस्वाहात् कोर्वलित्यः यज्ञ लाभे कृषङ् राजेत्यस्वासे तुलग्नयः एकाकेदाय ते पुनः त्रिज्यमत्सवेदनम् यज्ञस्ति राहवनम् महज्य एकागेशः अजेभिमत्सवेदनम् भोगिराहुवनम् भाज पृच्छामि त्वारमन्दम् पृथिव्या पृच्छामि त्राभुवनक्षणाभिम् पृच्छा विश्वस्थलेन पृच्छाय वादःफलवम्भुवनश्चनाभिमवासकृष्णेन ब्रह्मैवम् व्योमः ीणामदे कश्चन ृक्षम् पशुमन्य स्वकः ोहनः <laughs> निष्पालः गोहि जनः चक्रोजनः भव पदवस्वाञ्जनगायत्रेण चन्दनारुचाय स्वाञ्जनत्रेश्वरेण चन्दनारुच्या स्वा अञ्जन्तगायतेन चन्दनाय त्वा स्वगवतिन्द्रभवम् प्रिया येन ज्ञान पठापरस्वभावत्र गाजिनः सम्पदितस्तु सन्ताने जय गंगा जय पहाड़ नमस्कार पहाड़ वंदेले जय पहाड़ जय पहाड़ जय पहाड़ जय पहाड़ जय पहाड़ जय पहाड़ जय पहाड़ जय पहाड़ जय पहाड़ हिलाय स्वाहा हिलाय स्वाहा हिलाय स्वाहानुय स्वाहारित्राय स्वाहाय स्वाहा दिप्ताय स्वाहो गृप्ताय स्वाहा गुप्ताय स्वाहा प्रमुक्ताय स्वाहा मञ्जरे स्वाहायञ्जले स्वाहानु मञ्जले स्वाहानु मञ्जरे स्वाहो ध्वजले स्वाहायने स्वाहा धावने स्वाहा तिष्ठते स्वाहा धर्मस्थे स्वाहा ॐ स्वाहो Brother, Brother, Brother, Brother ृङ्गाय नौजायन् राधायणहायन्दुले खण्डहा स्मैरान् नाजायन्द्रं वत्फलभाञ्चाजाय प्रयाधाञ्चलता उभये खण्डा स्मैदिको सत्यं वेदं मत्फलये निष्कागु दत्तं वत्फलोभयं तृच्छलं च मत्तावाय राधो मत् ैतस्मात्पयज्ञाप्तमेव मुद्रं वा एवं जय एकं वत्फलमुभयं जियो वेशमुद्रस्य पारङ्गभश्च रघुगृदं वत्फलो वेशमुद्रस्त चैतौ एवं वित्वा एवं वत्त्वं वत्सलमुभयञ्च नायङ्गक्षं गीयमेव भागवत्तरप्राणः पूर्व बालवोत्तर प्ररोधनं ज्योतित्व संवत्सरस्य रोगेणाभवं जनेत्तरेण विश्वरं लिखराभवन् जयद्वाज नवत्संवत्सर सुरे वत्सरश्रेवनं विषनं मध्यदोचरेमोचनमेव दक्षं नाग्रेवलद्विमोगिञ्जवाज्यायैव अर्जनं लागञ्जयन् ब्रह्मराजनामद्यासरे ेवयानेन भवेदप्रोधाक्षं रागुञ्जे देवयानः पन्ता गायत्रे पृष्टं जगषे त्वे गायत्रेण पृष्टकाय जगतिपञ्चलेवयानेनैव तत्पथायञ्चनगो देवलोको वेदामदेव लोका देवनयन्त्यन्या अन्यानुसौ भवत्यलोको वार्सो वश्चलोकादेवान्यमन्यं देवलोकमध्यारोहन्तायन्त्रिमत्त्वा र्गस्य लोकस्याभिवृत्यावर्गस्य लोकस्याभिरुच्यैश्वसिवाभिवृक्षान् जपयन्ति वासिवाश्च वित्राश्चादृष्ट्यन्ते वासिवास्यैवन्द्रविभाताम् वृष्ठिच्चान् भासाम् वृक्षान् यपयन्ति रस्मानुभयिष्ठा सोढान् गृह्णन्ति मासदा शृङ्गारस्थे शङ्गाय दृशान्धे तासां काय गन्धाः सन्त शृङ्गा निजाय गताः प्रवर्ण आत्मा तिष्ठा मासामत्वायामेवन्द गास्तु पदा उभयोतापगाष्टङ्गाचाष्टोपाद्रोतिवासो त्रेष्टन्द्रं येन पदेन फलभागे चैरन्द्रिविन्द्रिखले चन्द्रदेतमयान्त थमे मासिवृक्षान्यपयन्ति मध्यमभुवयन्ति स्तमभुवयन्ति गच्छान्ध उपचेदन्ति चक्रम् वेहावनाभ्यान्धोत्साधोः क्षरे यान्दागत्स उपजेदं चे संवत्सम् सम्पाद्योत्तमे मासिवेज्यम् पचो नवरुन्धने समुद्रम् वागे भारो कालम् निर्लवन्ते एवं वत्समुभयन्ति योग्यतामध्य समुद्रस्य प्रवहन्मध्य युक्तादत्तम् बृहन्धराज्यामित्तान् विभर्य काले यत्कन्धृत्य वैदृतमानाः सर्वान् कामानवरुन्धरे भवन्ति मनुक्षलोको वासो मनुक्षलोका देवनगन् जिलन् यत्सामभवदेव लोको वीतामदेव लोका देवान्यं मनुक्षलोकं प्रत्यवलोहन्त्य जगति मद्रप्रगन्त्य जगतिदानं प्रत्यवलोहं चाक्षेण शङ्कनीयां सत्यवलोहेश्वलोक्ये विस्ता अवन्तराश्चलयं वा निरस्यामेव प्रचलं कन्या वैश्वे प्रजाच्यावाङ्घलं वेदधराच्येन प्रजा वयप्रजा वेद्यमा भवने प्रजा नैव न जमाना श्र एतागं भवाङ्गस्य अध्याभवो सात्वविदाक्रियनेनेषा शान्तिः ेवाचर्वच्छन्दागुजे जन्मस्तवना देवेधाविन्दं घण्टेश्वरफल्वाहुस्तवनमुखे शवनमुखे कार्ये विशवनमुखास्तवनमुखा देवे दिन्द्रं दण्डे दं वेशायोगेशाय गागत्र्या चतुभवजगत्याभः पञ्चा स्वाहा छन्दागं विवेदं वेदौघेधान्दागं जगन् देवं सत्यं विहव्यगं दक्ष्यभैश्चिगया सुखेशं सत्यमेतामद्वाहस्ति तत्यावदेवां वृन्दे प्रादत्तवने घन दीर्घे जलये शिवसुवे यज्ञश्चाचरित्यदेवष्ठन्तच्छिवक्षमभ्ये त्यक्तस्य देवादिरिक्तम् लभातिरिक्तमाप्ले मध्यन्ति मेदेव्ययौषत्कारमिकधर्मुसार्यौषधकारो मेयज्ञश्च प्रतिष्ठाप्रतिष्ठामेवनव्यमयन् देवि कृषिगतमनयेन सेवा करमासा सम्पाद्या हृत्रजम् दिवहेरिमासाः सम्पश्यन् च पासेऽनुमासा सम्पाद्या हृतम् च धासेरिमासाः सम्पश्यम् च मा वात्यकामासाः सम्पाद्या हृतम् च मा वास्तकाधिमासाः समपश्यन्ति मवर्णभात्यामासाः सम्पाद्या हृतजिमवर्णभात्यादिमासाः सम्पश्यन् शिगवै प्राणमखेन्द्रौमाख्यामासा सम्पाद्याः चलञ्चितं वत्सदा एवलत्रानन्दैल दर्चन प्राणं जगरं नैतामदक्षेलगुणम्भो विमथेनाख्यमाख्यौ हो नमास्यामासाः सम्पाद्याः चलञ्चितं वत्परा एव तानन्द धैल दर्चिन न्ति देवानामेवेन यज्ञम् देवा एतद्धिन्दन्ति यक्षगवन्त प्रपुंसन्तमताः चायापत्यं वशदानभन् च प्रजापतिः सर्वा देवता देवताभिरेव यज्ञौ सन्तन् वन्ते एवं कृ एतत्सवै यत्रा नार्यै यत्रा नार्यं भवति चैव समनाञ्जय कभोजभक्षय चेतवामवेशा चेतैः यथाय समं वा एते भाम्भवनभाजो देवता गच्छन्ति देहलक्षणन्तिमनं पलवनाधाश्चायधनादेव समनभाजो देवतावलं सेष्टागपालान्तामनैकाधिगवानां पाद्यञ्जले सुमने स्वानुगवान् वने संगश्चे महासदेव के यत वनेन सरञ्जवैश्वरे पुं वैतकेगत वनञ्च नैव के गतवनान्वयन्ते होदृदृज्या ब्रह्मराजहस्तहृतृज्यमे वेत्यमाभात्यायाञ्चोन्नमित्याहुरेशे यज्ञम् इत्याहले अवान्तरे येज्ञम् दिनाक्त्यप्रकाशस्यामुच्छमित्याहरेशमे मासोऽपितरे दिनाधि क्षमुत्प्रजय दिनाधि क्षमुत्प्रजयः परिजा मध्ये हस्ते सम्पद्ये वसुमते पुरवनाशमस्तार्कपालन्यप्रजयैन्द्रजेन्द्राय भगुत्वदे पुरवनाशमेकादशेश्वरेण बालभक्सुमदप्रादप्तवनन्ये वसुमदे परवनाशमस्ताकपालन् यमन्त्येवता मे मदद्भागिनी गुरुपन्त्य यं चेञ्जे मच्छन्ति मरुत्वदेवकादपालि निर्गवञ्च देवतामेव तद्भागिने कुर्वन्ति लवनमेकादशभियं ज्ञायाभिभत्यम् मातोमम् फलभिज्ञम् भवाहभिभक्त्वा कर्मणेव तत्त्वर्गम् लौनवभिवर्तकम् सौयम् चित्प्रतिपूनर्गहीतस्त्वर्गो लोकैर्लक्तुम् नायता चित्सा न्यन्तोः श्रेवाज्योतिषे मये चौराहितान्मासौ ब्रह्मताम लोकाज्योतिप्रजा ज्योतिषम् लोकम् पश्यन्तधिवदम् धायन्ते शामिन्द्रियं वेशमगामस्तक्रोजे रावानुन्धरक्षोदस्य क्षोत्रोज्वालस्यां च स्तुवन्द्ययज्ञस्यैवां कञ्चेन्द्रियं वेदिकमवरुन्धरे यस्यां चतुं यज्ञमेव पद्यस्तारङ्गद्यो वयं यापयधानेन्दवन्त्यन्द्रियमाणे हा गच्छन् यो पुरताश्च वश्लोकेन वक्ताज्ञश्चैवान्तम् गत्वा श्लोकभागवत्या प्राणात् प्राणानेवणे सुधाय श्रीलवं चित्राणेन्द्रत्यप्रायस्थापुरुषः सर्वाय प्रत्यय हृदयेभवमेवाहलसं भद्रम् जिवदासुप्रदेशे पत्रयोपगायञ्च विषयत्रायप्रजाः मे तासा भागौ राज्यं वलेयामि राज्यं वर्ये तद्राजनराजर्राजनम् भवति प्रजानामेवलयन्ति पञ्चलिमं सम्भवति प्रजामने राज्ये पञ्चमित्यस्पन्दन्तु लोकमेव संसृच्छादेकप्राप्तरु सुबन्धव निश्च्यञ्चलव उत्तमं केवलमा भव गच्छन्ति प्रें क्षणो भवत्यैव क्षणोन्ति भवन्त आक्रमणमेव लक्षेङ्गलमानाः कुर्व एव वर्गश्च लोकश्च भवत्ये वे सहस्र प्रजापय प्रजातताभ्यैराम् आनुभय लभ्यम् भवनि प्रजालयमाणास्त्रैराङ्गाध्यैराङ्गौ कामलुन्धय तस्माद्यागुण्पमागु सत्रगुपमभ्यं चौषुकास्तागुण्तमाम् प्रजायष्यत्याभोचमाध्यागु समाव्यभमक्षौषुकास्तागुण्तमा मुत्पदं कुर्वदेकदा ब्रन्थान् समुषानामुत्पदं कुर्वत एवम् कुर्वदमोच्यमात्मन्धानायुष् प्रष्टं चादिन्द्राभियत्य समाध्यं चोहन्धरे भोगितं विशमा ष्टादामे मा वरुन्धते सर्वा वदन्ति सर्वदावध्यागुंसः प्रवेदान्तोर्भैर्माशैरन्धय तथा पुंसावानि भवन्ति भ यावज्जेन् दिवागुराभवदस्यैवयन्ते कर्मापन्दम् चित्मानमेवम् च पापनाक्षेपाचाम् वक्षरवेदाम् आत्मानम च वुम्दानरे चोमाध्यालयम् वैवृक्षम् च पदोनिक्षवेदम्बुन्द्रायम् च मधुवे परमान्नात्यम् परम एवान्नाथ्यमरुफले पदोनिक्षम् च महीनामेव ृजये स्वाहा दरिक्षाय स्वाहा जय स्वाहा संबलाश्रय स्वाहा पवमानाय स्वाहा साहय धारा यत्साहय नागैः साह प्रजलागैः साह प्रजलागैः साह विद्याधिच्छते साह इड्जोदना नागैः साह गुब्च्छोदना नागैः साह समयैच्छते साह समयैरे साह भव्यस्य समयैरे साह वैदेच्छते साह वैदेत् साह हिरैत् स्वाहा भर्वरेस्वाहा बम्बरस्वाहा वैश्वेस्वाहा जीकार्यचस्वाहा जीपादनेस्वाहा जीगदर्शस्वाहा कौचनेस्वाहा कृष्णेस्वाहा वैकृष्णेस्वाहा जयचरे स्वाहो गृह्णये स्वाहो गृहेण य स्वाहा मित्रश्रे स्वाहा विप्रमाणा यत्राः विप्रदा यत् स्वाहा सक्रे स्वाहा गवरे स्वाहोग्रवासवस्वाह धत्रा इव भावभत्राः गत्राः गदेन स्वाहा दन्दकायस्वाहा प्राणिने स्वाहा प्राणाय स्वाहा मुखवज स्वाहा मुखायस्वाहा नाभि स्वाहा नायिका यस्वाहा स्वाहा रक्षिका यस्वाहा स्वाहा गण्डका यस्वाहा स्वाहा शिवका यस्वाहा स्वाहा यस्वाहा स्वाहा saha spaha paladaha <laughs> spaha spaha vaste spaha vaste spaha dumaha spaha dumaha spaha varastaha spaha varaha spaha retasaha spaha retasaha spaha kala dhaha spaha kala dhaha spaha lobhana spaha lobhana spaha bhaja spaha sukha spaha chandana spaha chandana spaha लोहिताय स्वाहा लोहिता यस्वाहा वागोगन्धय स्वाहा वागुंशगाय स्वाहा श्रावभ्यस्वाः श्रावकाय स्वाहा सन्दय स्वाहा मत्जकाय स्वाहा मज्जन्म है स्वाहा मज्जकायस्वाहा स्वाहा लग् कर्ताय कृताय कविष्टस्ताय तस्य एक्यश्चयेनक्यमुंसन्नस्याः भुषैकायायत्वा प्राणायत्वाय सा ज्ञानाय साभ्युच्येत्त्वा धाभये त्वा घोषाय सा घोषाय त्वा घोषाय सा प्रत्युच्चे त्वा ग्रे गायत्रायत्राय वा सुन्द्रायाकपालयिन्द्रायत्रैस्तुभाय पञ्जदशाय मायग्रे स्वागेकादजगमानो विश्वेभ्येवे भागरेणाभ्यामानुष्ठाभ्यामेकुशाभ्याम्बे राजाभ्रागुरुभ्याम् चायद रस पादये मानसायत् नवायनाः परायहयन् दिगारि सरत् पिच्छारि संतसायत्रे त्रुजायरे वतानिषेणाय यज्ञादगपालो दितेत्तमत्ने रुद्रज्यये विशपादराय यज्ञादजगपालो नृत्यि चरत्ठागिरकणाः Yo agna vitte sat kriedayachato mohana jagro reja adit kayire kni so vila senat kroyachiye dayat sankira agna reta ni habe kou sina nirvapae dese varudrosha antavora sayapalan pasu niranan jadhivande dayat sankira kahena ni habe kou sina sampati bhagadeive nairvaina kou samara jena charudrosha antavora पशूनभिमन्द्ये हरे कौषि भवन्ति हवे गुरुष प्राणानेवैला विनानन्दम् विराजिराज्यप्रियुसर्वा एकचन्द्रोरे प्रक्षये लब्जयित्वा हव्यदेतानि हरे गौषिन्द्रमत्कृविस्तो प्रक्षये चित्य ्यामित्याभ्यदेवायहेवं निर्भवतिदिशाभियत्याय रामायन्द्रम् देवायाजयम् सत्त्वारिन्द्रभव एकयामम् मनुष्या सवलेन्द्रदेवानाञ मनुष्यानामेवम् भवति हेदम् निर्वामेकयेत्याय देव पुरानुवाख्या भवन्ति सर्वदा साम् दिशा भजत्यै एका ललाटे मेजवा महितै लयत्ता जानक ता बहुवा चैते अक्ष्यवयतरम प्रत्यश्र प्रैराय यजा विकेमा उपया परिवेद दृष्टलागणि स्पारिष्टं गन्ध विदस्ते ज्वल महिमा लक्षत्राणि रूपमा दिव्य क्षेत्र लक्षस्मै सामनैः प्रयावद एकः यस्य विश्वमुपादुदया कृप्स्य देवाः यस्य मुख तस्मै देवालहेवान् वयामिप्रजापदये सायस्तम् गृह्णामितस्य देव पृथिवेव हिमौषयोमया तस्मै सामहि प्रजापदये स्वाहा ब्रह्मन्द्राम् फलात् ब्रह्मश्च वेदाय रामाश्चन्द्राश्रेणाैरब्धस्यो लोकः पदम् शियोषायुक्तो योगिवानस्य वेदोय नामेः पञ्चन्यो वर्षतफलिन्यो नवोषभयः पच्चान्योपक्षे वो नः कल्पकानाम् ृषे वाज्यङ्गिलमगलभाज्यर्वाक्रामे वाद्यं दरिक्षम् वागिङ्गिलमगलभाज्यर्भाग्याम् भाज्याक्ष्यश्चिलमग राज्यर्भाग्यस्थवाङ्गे स्वीपादम् पारय वायुस्ते वाधिलैङ्गालहे सत्यपादम् पारया नित्यस्ते वाचलङ्गाले सत्यपादम् पालय प्रालधे सानं मेत्रयोः ज्ञानभिरसिद्धारम्भ्य वृणोहापानधिगस्य आरम्भ्य वृणो हजक्षरजक्षर्मेः प्रोक्षमहि मयिभेश्चाय हत्यायर्मयिभेः ी जम्पश्चा सत्यन्यपच्छा सत्यगुं सुवित्मला होषयश्वमन्त्रय भगवान् मत्सरः जट्टाकमानस्फौर्यचलुत्वाौ चलो नौ चल रञ्जयित्वालजपालो मृगाखयनागच्छय ताकमानस्फौर्यम् पयो भागव्य आर्यगः अग्निं भवतु भवतु जगपालो निष्ठावरुणां गोमुख्याम्यको विश्वेण वेष्पाद्रादपालो ज्ञानेन जामकुम् भव जनाञ्जिकरामः जये समनमत्सवे समन मज्यसा व्य समनमदेवं मध्यं भज्या सन्नत यत्सन्नमन्तु वायवेशमनन्द्रेक्षाय समन मध्यसा कायुमण्डले क्षे सूर्याय समन मध्य वेदमनक्षा सूर्यवशन्द्रमजे तमनमन्ध्यक्षत्रयाध्यक्षमनवत्यसा दमायक्षत्रे वरुणाय समनवदृष्टमन मध्यसा वरुणाधृक्षामन मध्यसा मध्या ब्रह्मणेशमनवक्षत्रा यजमनमध्यथा ब्रह्मक्षत्रेण राज्ये शमनमध्ये समनमध्यथा राजा विशादसा यशवनमध्ये भक्तमन मध्यसा रसाश्व प्रजापदकेशमनवत्पोजयभ्यत्तमनमध्यथा प्रजापदभोजये श्वेवम् वख्यम् भद्रास्सन्द्रमयः कन्नमन्तु ेन भोवितब्रूहि नवोद्रे प्रसिक्षे लो गुरु लोकमत्मै यजमानागिरे नवो वा गुरे लोकमत्मै यजमानागे हि नवस्रोज्ञागिरिक्षिले लो गुरे लोकमत्मै जलमानागिरि ो मा अस्पत्य मेध्यक्षिरो वैद्रे जन्मान्मेषाणा अश्वक्षमेध्यक्षिरप्तो परिणो होदात्मेषाङ्गाय bhavanta anya samaya kala mane manaspada yo vaala akkhamukham eva panarokhya sattguru samasta udara vanchayet म् वायुभ्या वाजेभ्या वादेस्त्वमो यजभ्यदेषद्योगते यद्विधो मृषत्सय जिन्मे हरिषद्वरिशिवाये मात्यवाकर्वास्पस्य जायमानस्य महिमा पुरस्तायते धात्रिजं महिमानस्यागमजायत एको वै महिमानावस्तमभिषत्तं भोगयो gagana bhagavata sura sa dikam svarvana stho manushya anta vadra vaspat kegn samuddo vandu om sakama kandas vabhata sthitodanae sanghita sampurna ्रमाष्टक प्रारम्भः ब्रह्म संसत् सन्तन् मे जिन्वतम् शत्रघुं संसत् सन्तन् मे जिन्वतम् शिषकुं संसत्सन्ताम्ये जिन्वतम् कोक्षगुम् संसत्सन्तामजन्वतम् हयिकुम् संसत्सन्ताम्ये जिन्वतम् पुष्टिकुम् संसत्सन्ताम्ये जिन्वतम् प्रजाकुम् संसत्सन्ताम् मे जिन्वतम् असोम् संसत्पन्तान्यम् सुतो द्विजनथाः देवास्त्वा शुक्रपाः प्रणयन्तु सुरेलाः प्रजाप्रजनगन्वरेः शुक्रः शुक्रसोचिता सुतोजनथाः देवास्त्वा मन्सिपाः प्रणयन्तु सुप्रजा प्रजाप्रजनगन्परेः मन्त्रे मन्सिसोचिता सञ्जग् मानौ जिवः पृथुर्यायोः संसत् पञ्च मे दिन्वदम् प्राणकुम् संसत् पन्तम् मे दिन्वदम् अपानगुम् म् आयुस्थायुर्मेधत्तम् आयुर्यज्ञाय दत्तम् आयुर्यज्ञवदये धत्तम् प्राणस्थः प्राणम् मे भक्तम् प्राणिम् यज्ञाय धत्तम् प्राणम् यज्ञपदये धत्तम् चक्षुष् श्रोत्रज्ञत्थश्रोच्चम् मे धत्तम् स्वोच्चम् यज्ञानि धत्तम् स्वोक्तम् यज्ञपदगे धत्तम् औदेवो शुक्रावंशिणौ फल्पयसन्द्रैवेदृषः फल्पयसम्मानुषेः इषमोर्घपद्मासुधत्त्वम् प्राणान् पशुरो रजाम्बयि शेजमाने च तिरस्तः शण्डः तिरस्त्वमर्कः अपरस्तौ शन्धामस्तौ सहामुना शुक्रश्रमिलति अन्थिलः क्रमिलति सप्रथमस्वन्द्रविश्वकर्मा सप्रथमो नितवर्णवाग्नेः सप्रथमादृहस्पदित्वा हस्ता इन्द्रायुसमाजभोनि कृत्तिकास्तमादधिता एतद्वाण्यक्षम् यत्सृच्छिकाः यामेवैनम् जेवताया मासाय ब्रह्मवर्षसे भवते मुखम् मारेतन्नक्षत्राणाम् यत्कृच्छिकाः यः कृच्छिका सद्यमाधत्रे मुख्य एव भवति अथ खलु अग्निनक्षत्रमित्यपचारन्ते युधा जलताहुरो भवति प्रजापतेरोज्यामज्ञवसजन खलुरोदधरा ततो वैदे सर्वान् रोहाणरोहण्य तद्रोहिणे लोहित्वम् दो यो दोहिण्यामज्जिमासत्ये शुद्धो वा सर्वान् रोहान् रोहे देवा वैभद्रासन्दोग्यमाधिकन्ता ते सामाधितोज्ञाधे च अथेरेद्यो वामम् वत्त्वपायाक्रामज हे ततो रैवामम् वसोपावर्तत यः पुराभक्त्रः सम्पादीयाञ्च पुनर्वस्त्वरज्यमातधेता पुनरेवनम् वामम् वसोपावर्तते भद्रा भवति यः कामये प्रदानकामाने प्रजा तपोर्वयो फलम् यो रज्यमातधेत हरिहम्नोलाये तन्नक्षत्रम् यत्रोर्वे फल्गुणे हर्यनेतमाधुर्यो ददाति धानकामास्मै प्रजा भवन्ते यः कामनेत्र भगे स्यामिके त उत्कलयो फर्गुण्यालमादधेता भगत्यवाहे तन्नक्षत्रम् चतुस्तरेफर्गुणे भज्ये भवभे आरकञ्जावे नामासुरासन् तेषु भग्राय लोकायाज्ञमशिम्बता पुरुषष्टकामुकादधात् पुरुष इष्टकाम् हयिन्द्रोकाद्राम् मलामुपाधताम् येषामे चित्राणामेतेषुवर्गम् लोकमात्रारोहन् हृन्द्र इष्टकामादृशत् हेलागे यन्ताम् हेवागे यन्ताम् तवोषामकयाफलन् दा उपलताम् तौ दिव्यौ श्वानापभवताम् योऽभ्यादुर्यमान् स्यात् सचित्राय मध्यमातभीता अवयेभ्यादुर्याय को जान्द्रियम् वीर्यमात्सम्भक्ते वसन्ताब्राह्मणो वर्ग्यमातभीता स्वसन्तो लेभ्याह्मणश्च स एव मृतापाठाय ब्रह्मगच्छी भवति कुटुम्बा हेतवतॄणाम् यद्वसन्तः स्वसन्धा किमाधत्ते मुक्षे अतोमन्तमेवेन प्रजातमाधत्ते हेष्णेन जन्यः आदभेत हेष्णोवेण जन्यस्यत्व स्वेन मृतालाय इन्द्रिया वे भवते सरदिवेश्यादभेत शरद्वेवैष्यश्चत्वः स्वगैवेन मृतापाधाय कसुमानुभवते न कोर्वैव फल्गुण्याज्ञिमातभेता केशावेदसन्न्यासात्संवत्सरस्य हत्रोषे फल्गुणे कश्चितगैव संवत्सरस्याज्ञिमाधाय आमीरानुभवते उत्तरयोगातभेता केशावेश्वसमादात्युत्संवत्सरस्य यदुत्तरे फल्गुणे त्याजिमाधाय अवीहान् भवति अथो खलु यदेवेन यज्ञमुपने असादशीता शैवा सजेः उद्धन्ते यदेवास्यामेध्यम् प्रपहन्ते अवोवक्षदिधान्तेकतानि पतति एतद्वाज्ञैरे श्वानरस्य लोकम् कोषयेनैव एत्वा जलमवबन्धे पूषान्यवपदे पुष्ट्येषा प्रजनम् हिरूषाः पुष्ट्यानैव प्रजनये ज्ञमासत्ते असोहञ्ज्ञानयैवज्ञाने सत्त्वशूनाम् ऋषाः ज्याकुशले सहाम् हे वियते अभूताम् अत्रैव मनोषः यज्ञयमिति शरमुष्यायज्ञयमासे करस्यापदधारे खोषा अपवन् शरस्या यज्ञयमासे करमुष्यामदधारणम् ऊषामो यावापृथव्योदयज्ञमादत्ते अन्यन्तयना आहो लोकम् कृत्वा तपसुरेण प्राविशते समोके कुरुपृषेमचरेषु सम्भागे यदेवाश्रमकन्यक्तम् तदेवावलुध्योर्जम्बाकुमधम् प्रसुर्गा उपदेशा उद्जिहन्ति षड्वल्मेकम् षड्वल्मेकमपासम्भाग भवति बोध्यमेव रसम् पृथिव्या अवरुन्धे अथोश्व स्वेतत्पृथिव्याः षड् वरिणीतः अवधिरो भवति च एवम् वेदा प्रजापयप्रजा असजता सामन्नमुपा क्षीयत साभ्यक्तोदमु सावन्नम्ना क्षीयता शक्रोगः संसारो भवति हास्तरेऽन्नम् क्षीयते आपो वा इदमग्लमाधीते केन प्रजापजनश्राव्यते कथमिनग्यः ख्यादिते स्वपश्यत् पुष्करवर्णम् शक्षते हो मन्यता हस्ति वैते शस्त्रैमधिते हव रूपम् दृत्वन्यते तपशिरे मधाराच्छते तस्या उपात्योधमज्यते तत्पुष्करभर्णेले शरत्पथयत्त्वम् अभोद्वालिषे तद्भोन्ये भो हि त्वम् आन्दिराम आगु शर्कराभिरजम्भेण भोजके ना भो तच्छर्करा नागु शर्करत्रम् यद्वदाम् संसार भवति अस्यामेवासम् वक्तारमध्यमाधत्ते शकलाभवम् तिरुचये असौ संस्थाया फले साधे इत्याहुः आपो वरुणस्य मत्तयासन् सा अज्ञलभ्यध्यायते सास्त तत्फलेतःपरा वदते तज्जन्यम् भवते तज्जनन्यमुपास्यति फले मेवाद्यमासत्ते पुरुषयन्मये उत्तरदौभायच्छाधिप्रयच्छते हर्यनाय हस्वारोषणम् कृत्वा स्वच्छस्याम्पक्षत्वम् राजाभाले ह देवासुरकन्यत्रम् हदेवावरुन्धे ोर्जं यपयन्ता अनौदुम्बरगुर भोर्द्वा उदुम्बरः हलौदुम्बरत्वम्भारो भवते भोजमेवावरुन्धे गङ्गायत्याह तस्य वर्णवच्छिद्यता षत्पर्णो भवते तत्पर्णस्य बह्नत्वम् शच्च स्वमगीतमेवावरुन्धे जैवावे ब्रह्मन्न वदन्त तत्पन्न उपासनावत् सुस्वभावे नाम यत्पन्यमयः सम्भारः भवति ब्रह्ममसमेवावरुन्धे प्रजापतिलज्ञमसजता स्वविधे समाधक्षते तच्छञ्जेखमित्वम् यच्छ नियः सम्भारः भवति य अग्ने कृष्णस्य गतः पृषङ्गसम्भागो भवतिमतमयन् तस्य पालिसस्य हृदयमाच्छिन्दन् यदसविषदस्य वृक्षस्य सम्भागो भवति तदयमेवार्यमासत्य द्वादशवित्कारमारुभेता द्वादसमासावत्सरः संवत्सरा देवैनमवरुद्ध्यासत्य षट्वादवित्कामेष्वारुधेता हरिमितमवरुन्धेता कक्ष्म्यमिता इति हरिमितम् चैवापलमितम् चावलुन्धे अनुपम् वै वाचामधे अनुपम् मनसाध्यायते चक्षुर्वै सत्यम् अद्राजित्याः अदर्ध्वनि तत्सत्यम् चक्षुर्निमिते तस्य गृहे नमाधत्य तत्पादाम् वदेत् नास्तु भणो नास्मान् गृहे पठेत् अत्यैश्च साध्याभितः आध्यै वैरात्रे आहध्यैयाः प्रशमः ऐन्दमः चक्रङ्गारिवत्य मातसाते अशोदे वालु इवाहवनीयम् चिन्तयते वालुधे अध्वर्यहवलीयमातसाते एतत् तजा हेमोदम् शैवो काशिम् न्याम् असायवम् आद्रलेव भविष्यन्तीति यस्यैवतेहवनीनम् भद्रा भोत्साहुवर्गम् लाकमे लक्ष्यन्ति प्रजान्तनरे या धीयते राज्यस्य श्रीरेऽपि भद्रो भोत्साहुवर्गम् लाकमे प्रजान्तनविन्दते सामनम् अथ वा अहन्तभाग्यमाधास्यामि यथा पदभल्पि समेत्य सत्यर्थम् लवकेण स्थावर्गल्लवकम् जेष्येति कारिकवत्मज्ञाम् वा न प्रजापशव प्रजायन्ते नारिकवच्चेनैवास्मै प्रजा पशोन् प्राजयते अफलाहार्यवचनम् त्यन्ति भव अयम् भवकः अत्यम् नैवतेन भवकेन प्रत्य गच्छते असावनीयम् केनैव तु भर्गम् लवकमध्यज शस्यैव मज्जना दीयते सप्तया मधुरम् विपुनेन जायते सत्यस्त्रम् लवके तिष्ठते अभितुभर्गम् लवकम् जयते शस्य वायभागे मतमजना धीयते आ देवता पृच्छते पाकेयान् भवते शस्य देवतानाभ्याविष्टय वशीजाम् भवते त्वाङ्गिरसाम् प्रटलप प्रजयनाथसाम् गिरसामादभ्याय आदित्यानाम् त्वादेवानाम् प्रटलय प्रजयनाथसामे कन्यासाम् ब्राह्मणीनाम् प्रजानाः अरुणश्चत्वाराज्ञाम् प्रटलपय प्रजयनाथधाने गिराज्ञः इन्द्रस्यत्वेन जयेन प्रतमते व्रजे नादसामेति राजन्यच्च मनोहमत्वा ज्ञाम्याः प्रदपते भ्रजेनाथसामीति वैश्यच्च प्रभूनाम् त्वा देवानाहम् प्रदपते भजेनाथसामीतिरसकार यथा देवनमध्येनाधीयते स देवताभ्याः पृष्ठते अजीनाम् भवते प्रजापदमुभाटः सत्यमपश्यते हे नाड्यमासत्ता हेन भोक्षुभक्तुमरित्याः हे तद्वैवाच्यम् हयते नाग्यमासत्येता अथो सत्यप्रासोरेव भवति अधोयवेन विद्वानभिहरते हृदयेन भो नित्याः प्रजा एव तत्यजमानसृजरे भो इत्याः अस्मिन्नेव लो लो लोके प्रचतिष्ठते सुवरित्याः सुवर्ग एव लोके प्रचतिष्ठते त्रे अरे लोकाः येष्वेव परिष्य समाधत्ते सर्वे पञ्चशिराः वणीयम् सुवर्गायवागे च लोकाय धीयते शिलाः तव एवास्मै लोके पाठः सत्यम् सर्वमाप्नोति पञ्चविराहवनीयम् अष्टौ सम्पद्यन्ते हष्टाक्षराजायत्रे रायत्रिः यावा एवाग् समापश्च प्रजापयप्रजा अथजलात् सा अस्मात् पश्चात् पराग्रीरायन् ताज्योगृह्णा संयोजः पश्यन्ते प्रजा अपि समावर्तन्त वैभाग्यो गृहे युद्धरेव पश्यन्ते प्रजा यजमानमपि समावर्तन्ते प्रजापते रक्ष्यस्वयते तत्पदावदने सदश्व भवते सरस्वस्याश्वम् केशवे प्रजापतिः यदग्निः राजापत्यो स्मः हजस्वम् पुरस्त्रान्नयते स्वदेव चक्षुत्वश्चिन् प्रजाः तिरमोदयते अद्रेवा एषः हजस्वः हरस्त्वम् पुरस्त्रान्नयते राजा नैव भ्रातु पुनरावर्तयते हरिष्यमानानेवत्यमकामयता विकारिकवत्याशक् ोर्बलाम्पोर्षमुदभरे अतोहपूर्वत्वम् हिरस्तम् बलस्त्राणैनो पुरुषे हिभरिक्षुण्यासो रो भजे प्राणानाम् गोभाय यक्षग्रे हरते हे यक्षे हे लोकाः हे अश्व सप्तक्षितमासत्य प्रजापति अग्निमसुगताभिमानन्त्यौ हरे शान्ति आप्रदाहाय च त्रयसाङ्गमानभैवासद्यो हरे शान्ति आप्रदाहाय पुनरावर्तयति अभिमानमेवासन्दधाति पशोर्वा एषः खलश्वः शेषरुद्रः क्षदग्निः शिलस्वश्चोनविदध्याय अपशर्मितमानस्याक्रमयेत् हनवरुद्धास्य पशवश आक्रमयेत् स्याज्ञङ्गास्य अवरुद्धास्य वशभवन्ते सद्रायापि दधाहेन शिलाजयवित्राम्मते अग्नय भवमानाय अग्निजयपावकाय अग्निजयशिले च अग्नय भवमानाय ऋगमते पुरात्तेवैनम् ैवाख्यम् उपरिकादधाति हे मातुः अग्नौ गावम् असन्ध्यविष्यति न जयेष्यन्ते सत्रेधा विन्यदधाम् अपुतृतीयम् आदित्यम् तद्धेवाभिलित्र पुनरमावृक्षन्त हे गोमानाय पुनश्च अशो वा अज्ञः पमानः हे वपुष्पादे प्रत्ययनापानुसः हे पावकाय आपो ैताभेदस्यान्म यथात्मास्याङ्गानि आदगे वदने यदेतानि शर्मके सङ्गानि आदृगे वदने उभयानि रमजृत्यानि यज्ञस्तथात्मत्वाय उभयम् वा एतच्छ हे इन्द्राज्यमेकादशपालमलेत् आदित्यञ्चलम् इन्द्राज्ये नै देवानावयादनामानौ हे देवदेव हे अयादनाम् आध्यामेवात्मा इन्द्रियम् देत्य अवलम्भेत् आदित्य भवति यम् राज्यम् अनुभः तण्डुलाः विशनमेवावृंजे विषदे भवते यज्ञश्चालोक्षाम् चत्वारारेषास्त्राश्रुञ्जे विषामेव ज्योतिषु भवति हशभोदा एतानि हरे पुंशे हेषरुद्रः अग्निः शकस्य एतानि हरे पुंशे शब्दे रुद्रायलिध्याजे हवशल् मालस्याजेनायङ्गे हनवरुद्धास्य वचनस्य द्वादशशरात्रेश्वरलिङ्गेन अमृत्सरपरिमारे द्वादशरात्रयः अम्बत्सरेवास्मै रुद्रवंशमयित्वा सरोनवरुन्धे एकमेकनेतानि हरेवंशिङ्गवे य सम्प्रदुभिरैषाभित्राम् प्रवर्तयति प्रत्यवरो ब्रह्मवादिना वदन्ति भवजुभुयाज अयथा गोर्गमाहुजे भूयायुभुयाय अद्यपना भवेत् सोष्ठे मे भवम् यथा गोर्गमाहुजे भवति नाग्यः परा भवति अग्निके ददागे अग्निमुखानेवस्तो मन्त्रे नागे भवन्तमवलुद्धे अश्वम् ब्रह्मणे इन्द्रियमेवावन्धे दे, छेनकुम्भोत्रे आशिलेवावन्धे दे, अनद्वाहमध्वर्ये सन्ध्युपानत्वार्येत्यावलंधे इसलो गावो ददाति विशनस्यावरुध्यये वासो ददाति सर्वदैवत्यम् वैवासः सर्वा एव देवता प्रीणादि आहब्दाशब्दो ददाति साधसमासाः संवत्सः हंवत्सर एव प्रयतिष्ठते हामुत्सङ्गेयम् छद्दितोलकायतनयाः संशयप्रशुलद्भवते फितम् तोकायगुम्पजा विद्वान् अग्ने अग्ने गुरो कृष्वा आसादेवाहे ओजन्नाथे हर्तक्षोर्यस्तदयमग्नेः संशयः पशुरद्भवते शक्ते शुक्रशुक्रम् वचः शुक्रासमो शुक्रम् शैलमे अर्जिनाक्षे ब्रह्मणा आदशेद्यादशेषादशे शेषे लग्ने शिभे समुभवः हिराच्च स्वराच्च क्षेमादिशतान् क्षेमाजन्वतान् शेषे लग्ने शुभे समभौ सम्राच्च विभोश्च क्षेमाविशताम् क्षेमा चिन्वताम् हेते अग्ने शिवे धनुभौ शिभोश्च शिभोश्च क्षेमाविशताम् क्षेमा चिन्वताम् हेते अग्ने शिवे तनुभौ प्रभ्रीरप्रभूतिश्च क्षेमाविशताम् क्षेमा जिन्वताम् शाश्च अग्ने शिवास्तनुवः गच्छ इमे वा एोकाग्नः हे दव्या वृत्ताः शोषणे सर्वश्चे पाकप्राणित्यन्मादिशवचनम् हर्कश्चक्षरित्याहमीयम् हैदै तथा शतोदनम् भेजमानम् फलमुदिपमत्या स्वान्तलोका अयम् लोकः हस्ति नैवेन लोके प्रयक्षि समासत्ये स्वामदेशमधिकारकमुद्धीयमाणे अन्तरिक्षम् वैवामरेण्यम् अन्तरिक्षदेवनम् प्रदेक्ष्यमासत्य असोशान्तैवामरेयज्ञम् हान्तनैवेनम् पदव्यमुद्भरते बृहदधिकारका मनीषाधीयमाने स्वागृहतो असौ लोकः ैवम् लोकेन प्रदक्ष्य समाधत्य प्रजापदमेवयश्चनम् शैलेन शैते अकुरुताक्षेतस्यैतत्वम् चद्वारवन्त्येयमधिकार्येवेणम् प्रदक्ष्य समाधत्ते श्रीजैनस्य मातधारे सुराः स आधीनमाणेश्वः प्रियम् पशुर्याः पशुभिन्सम्प्रियम् करोमि पशो नामधारे सद्यस्तौकायत्याः आभिलमेवै कामाचाराणैश्चन्माः जनम् तौकाय धनकायम् पशयत्याः अन्नमेवास्मै मनम् देवे विद्वानित्याहत्येव <Ned TV> ेव्यान्मते दुष्पदैत्याः आश्रमे वेतामासामाश्रे हर्चुरित्याम् हन्न देवावन्धे दिरेत्याः लिङ्गैरे लोकाः एष्ठनम् लोके च प्रतिष्ठि समाधत्य सप्तधानकार्यम्प्रदेशमारभेन उद्धत्यैवाभिमन्त्रिणः हवेन्द्रियम् प्रतिष्ठिरमाधत्य हिराश्चिवास्तशैत्याः एता वा अग्ने शिवास्तवः साभिदेवेन किम् समर्थयते ङ्गौ याच्यन् विश्यानाम् पराभावे समीर्गालज्ञम् मन्त्रये हे मा वा अग्ने यज्ञातमोहम् अजपुत्र नाम जनो भजने सत्यामुत्रेण तस्येताश्चेश्च वरुणश्च जायेताम् सायमवचने तस्या उच्चैः कथसाश्च तस्यांशश्च भगश्चा जायेताम् तस्या उच्छेदनानुभवम् तस्या इन्द्रस्य कृत्वा विष्टाजाताम्बोधनम् कजते हेत एधा ब्राह्मणाबोधनम् हिराजमुच्छिष्यते तेन समिभाष्यजा उच्चेजना एव यदे प्रजावचनायज्ञाः यदेतद्भवन्ति यज्ञवरुः यदेतद्भवन्ति एतावद्विधाः आद्रा भवन्ति चित्तमेव भवति एतद्वाज्ञाप्रियम् नासमर्थयति अभो गायत्रे भ्राम् मनश्चादुद्ध्या सायश्व द्वारः स्वस्य सन्दर्हप्रत्ययनस्वाय शत्रभ्येनाजन्यश्च छत्रभ्यम् धालेनाजन्यः स्वस्य सन्दर्भप्रत्ययनस्वाय हैवेशर्वैष्यश्च हैवेशम् धावैष्यः सत्यसन्दहप्रत्ययनस्वायम् संवर्तनम् च संवर्तनयोर्धते एतद् अग unsubhastena vanane tad anirvachana sudhyavade etad yamanasthiram addhamanameti sa agun samastenaade asti mukeyaade etad agun samastenaade asti viraade yadidhiyastade meena vachana vanane tad sadha astanamam sambodanam vadati आदित्यावाहित उत्तमास्तु वर्गल्लवकमायन् हे वाहितोयम् तम् प्रेलवन्ते हे देशित्याः भनाः हैरेव सन्तम् गच्छति हैनम् प्रेलवन्तेन वदन्ते अन्यः कार्यः प्रजाम् प्रयोंसजनयल्केभेषाम् ौखिकमरणे निवायवासिच्छायेवस्य राज्ञः ेन वरुध्यामृत्तरेणाध्याय तादस्याः पुरस्काराद्याय अप्रतिमारे द्वादशरात्रयः भवन्ति हिरिद्वादस्यान्नाद्याय हृहे वरत्थानानुभ्याय आहितादेवाश्च भवन्ते प्रजापतिः प्रजा ेवलक्रामते असर्वविजुम्बे वा पालयति सा भीयमुदक्रामदे षट्प्रजापनिःपर्यग्रन्थाम्ये वा पालयति सा ध्वीयमुदक्रामदे षट् प्रजापनिपर्यग्रन्थाय षड्गृच्छन्मेव पालयति सा च मुदक्रामदे षटप्रजापैःपर्यग्रन्थाय सप्रतसभाम्ये वा पालयति सामङ्ख्यमुदक्रामदे जापैः प्रजापैः असौ पङ्कमेव पञ्चर्वा एषाम् फले परिष्ठा कामात्मनाभिज्ञाधीयते तस्मादेतावम् सौज्ञाधीयन्ते आम् कम्बा सर्वम् आम् तेन अद्य शृणोति असर्वकुटुम्बे वा पालयस्याः अन्नमेवेदेन शृणोति हय प्रजान्वेव पालयत्याह प्रजादेवेतेन शृणोदे शोन्वयव पालयस्याः पशोदेवेतेन शृणोदे सप्तशभा पालयस्याः अभामैवेजेन हरे बुद्धे मन्त्रम् एव मन्त्रमैवेदेन मा प्रेतः श्रद्धामत्यामधिनेः ध्यायन्ते अभा चाभेश्व प्रेतः चय स्वाभेष्ट प्रेतः यत् सभायाम् विजयम् चाभे स्थक्तः शकुम्भरम् चेत् चाभे स्थप्रेतः सफाभेष्ठमेकम् मनानि वासिने महितानि गृहाने रोहिण्यामज्ञावेण्यो नवत्य उद्धन्यमानमस्याम् अपमात्मानिमाणस्य हन्तो शिवानः सन्त प्रतिशः सन्म माता पृथिवेकसातः सन्म देवे रष्टये आपो भवन्त पीतये शञ्ज्वत्रवन्तु नः हरेश्वानश्च लोकम् परिप्रधाः शोनमापितन्तुनः यत्र लोकम् पृजेच्च निरसम् भरन्तः सतञ्जेत्कलीनाः हत्येवम् सिद्ध्य ष्कारम् सहिरश्च मध्ये तस्येदम् लिखितमाभरन्तः असंवत्कारमस्याम् ऋषेम तत्पर्यपश्च मध्ये दुर्गे महस्य जगदस्वनिष्ठाम् अक्षुष्ठरस्यायत नास्तिदानम् अरुणम् प्रयुज्यांहरामि चा हिर्वहज्जगदस्वनिष्ठाम् भुर्गे माम् विश्वजनश्च भक्तिम् िवा शर्कराः अर्घेलेतश्चन्द्रम् हिरण्यम् अर्धस्तम्भोधभम् प्रजाहु तत्सम् फलम् दत्तरतो निधाय हरित्रयच्छन्तुयम् अश्वरोगमन्वृत्ता यः स्वर्धेतिष्ठः देलेभ्यो निधाय हर्च्चनिरसम्भन्तः शरञ्जीलेव शरदशरीराः पूर्जः पृथिव्यार्थित्सितोऽसि अनः मया वयम् वदन्तः कायत्वर्णवदत्रीयश्चै जिनोषि सोऽयम् अर्णस्वर्णार्थ्यजातः एतस्यावरुद्ध्यै एकादम् वरथा उवाचनो शुश्रभावे शो ततो मासमयप्रजापतिः आवप्रदाय स्वयशान्तेवराम्याम् शक्तेभृक्षस्य यतः ऋषङ्कम्भाज्जालः त्वयाभाषासंविदः वृन्दानवगमनप्रभाहिताम्भरामि सात्मानयम्भृतारत्यः शरीरमभिध्यकृता प्रजापतिनायक्यमुखेन सञ्जिताः चित्रस्ते न्देहृम्भणा पुनः भवन्यक्तम् तरम्दरस्टी तफिरप्ष जाप्जा अदनो रगमने तिख्वाने तजे तजे कभ़े मेर्ज्यागा तो अधावर्ट अभाय विष्णे ने तो भग़े मधें तंग्नो अच्टो अवजे तामने तेहे ज्याने अभिधाद जिंदु अच्यता सदेर को भेटा तिरिं� ृराजेर्यम् सुहरिणः विरक्तपरिभाववान् सन्तासमिथ्यरङ्गिनः अभिविद्यमानप्रभोन्धर्मः समक्तभिरद्यते विश्वमानः श्रोचिष्टे स्वकः देवान् हृदयाय लग्निः हृदयेन्नम् ृत्वा हृदयोम् <law> <hate Ell Murray frogoples> कैक्रन्थितः ैन्यञ्जातमेतम्बलाम् दशक्वये त्यसा स्वलोन्दमुत्सलामुत्सलाकुंसमाजयज्ञशान्तले तत्सत्यै यजनः शैरञ्जनयिष्यसः शयनप्रादप्रजनिष्ये शयप्रजनयिष्यतः ौशले महम्भयो लोकयोः हरिवत्यन्तम्भुवनश्चर्यतः निश्चयेन यादयम् हवे हवेदथानः हेखपुराय जलोपनाः हराजयम् पृशज्याः हतम् जिवम् विदलो लोकमस्मै हरिदेकामधर्मम् भूयात् करुजक्षम् मनो अस्तु करुष प्राणो अस्तु हरिणामप्रियास्तनुमः प्रियाहृदयानि महत्मानो अस्तु प्रियः हम् प्रियास्तनुभ सर्वे प्रान्त्या वामकोषधी सर्पन्दामज्ञः प्रसयैश्चायः हेन्दी वासञ्जिकाः हिन्दव देवाभिसंकेन यज्ञेव यम्ना हन्तोषेण सर्वमसुमासः हस्तयमानम् कायम् वेदम्भम् सार अग्नवत्मैके सञ्जात प्राणेनाभित्राणि मे ओष्टोषे नमह्यम् हेधायित्वारि भजसादराय सर्वम् धन देहात्मैमुण्याय अहम् मनस्त्रिमेन ममैव दम्बह्यान्ये पुत्रिप्रेमोदः साये प्रानुसमाधाने हन्नाथमन्नाद्यायतावत्यागम् अवभाषमानः ष्ठन्तुमासुभर्गः यत्सः आत्मा पशुभक्कविष्ठः तस्य कार्यामे अनश्ञ्जम उपपद्यते। स्याद् वा अज्ञेयः समानाऽहेति। यत् प्रकृतिया पर्यन्त इक्ष्यावेत्। बालाः पुज्यः अद्यलेद्यः। केत्रे प्रदातेलेत् संबहुधा। तदोवाचने रमणाहि। आदेवनम परिधम्भे विद्भाय। मन्केनक्के मरोऽद्यत्पर्यह। इष्पादरेत्त्या नोभिहाय। हा <ME rings and> ो नः कारम् तादृशादधानि अन्नादमन्नाज्याय परोत्सायम् दुःखे दुःखदुःखम् मध्यः शुक्रावोदनस्वम् शयनमे नयब्रह्मणा जाम् मे गोपाय हमदत्तारिवधे दानाम् च निश्यमानाम् च अमरे सत्ये प्रतिष्ठिता हसर्वविदम् मे गोपाय हरसमन्नविभाजिभरे हरब्भासीपदमो हरिधन्नः किम्पणो चभोन्ने गोपाय शिवाजोः अष्टाचालीहा हे जयसपादुगाः सप्तदस् हेभ्यास्तम् मे मम पाया शङ्खयस्त्री विना विधौ श्रिनस्ता सायत्री मति सु बृहत्पदे काभुवनश्च मध्ये ज्योतिषावारे स्वालयोपेन्द्रियते ु लोकेषु प्रतिष्ठम् लोयन्ते अर्जस्त्वमानकार्याहो अद्यत्वमसंलस्तु भद्रोलोकैः द्वादशाज्ञस्वामस्य स्तोत्राणि द्वादशमाधानात् संवर्धरः नो लक्ष्यम् उक्त्या सप्तदशात् परस्तामानः कार्याणाः अशरोहाणिवरुध्यै विश्वसितभिज्ञ स्वामौ उक्त्या सप्तदशात् परस्तामानः एतद्यनादमभिलम्पद्यन्ते रिक्तः एकोनः स्वर्गो दे लोको ज्योतिः स्वर्गमेव सुन्दरम् अत्र कार्यम् हैराजम् च दुःखेन सात्मनम् पञ्चमेण हरिवदगुरुक्षे तदुपक्षे भ्रवणयन्ते चन्दन एते सहालिक्ष्यन्ते हरिद्राश्च परस्रामदो शिला एव हरिद्राश्च परस्रामदो सुः सुगर्गम् लावयन्ते प्रयस्य पुरुषिणा मदामाने भवति प्रयत्य पुंशत्रे देवताः हेवता एनावरुन्धते हेवाहितपदानाञ्च सम्वर्धनो भयन्ति अहैनन्ते स्वस्ति समस्नुभे अज एव सञ्च भयन्ति हे हैनञ्च स्वस्य समस्तु बले एतद्बाहु सर्वान् समुदयन्ते प्रजापतिः सौ देवेन्द्रः सेवेण एतेन्द्रहामानः लोकान् निवासेत्यम् पक्षसी एव पक्षसी एतेन विचन्द्रे क्षसेमाचेते कृत्यन्ते पक्षसे मध्यमम् प्रपुंसमभितमायच्छति एवं संवत्सरस्य पक्षसे निवान् सन्वन्ते आगच्छन्ते एकपिपुंसमहते शौर्यलेतनः क्वचुनालभ्यते हौर्यो निद्राश्चालक्ष्यते अमलेव लोकेण समर्थयम् चेत् असमन्धयवेन वयक्रियते अत्रैत निद्राश्चाक्यन्ते अत्रैः रङ्ग्याः प्राणाः प्रजानानाम् श्रेणन्नेव प्रजानाम् प्राणान् दधा न्द्राणाः इन्द्राविश्रमम् हत्वा असुराभासो लोको तम् शुष्कलम् लाभोस्माभ्यजयद्वैवेश्व स्वर्गस्य लोकश्चाभिलत्यैवेकाच्च वन्दे श्वरन्धने आदित्यष्पालेः ह्यामेन प्रचलतिष्ठन्ति हन्यान्यावृत्येते इष्टेन ब्रह्माणि हस्यामन्येन प्रचलिच्छन्ति प्रजविच्येते यज्ञश्चेवान्तम् गत्वा स्वया प्रतिष्ठन्ति अन्नराद्यश्च्यमिदमुत्तमकंशभ्यम् एषमिदमेकविपुषः कश्चन सावच्चारि स च बलस्ता ीभयदर्शिनः इत्मादम् धनेन सर्वेषु वर्गेषु लाला लोकस्य सुकस्य अपानलोकपादालयभयः यत्रे गायत्रे दोक्त महादिवारेण ब्रह्मदामम् क्रोमः अथैनानि बलानि हरे मे देवाः नित्यम् सुम् लो पालयन् हृदपालयन् सत्फलानां फलत्वम् पालयन् चनम् एवम् वेदा अभेदानिःफलानि परे मे देवाः नित्यम् सुम् लोकमपालयन् हिपालयन् तत्फलानाद्युत्फलत्वम् पारयन्ते न एवम् वेदा अप्तिष्ठानम् वा एते गच्छन्तेवत्सरे नाप्ते स्याप्स्यैष्णम् वा वनमानभञ्जे विश्वः यज्ञमे मानभञ्जे प्रयस्थित्य हैन्द्राज्ञमानभञ्जे इन्द्राग्ये वै देवानौ देवदेव ्याः हेममालभन्ते वा पृथिव्या एव प्रजनिष्ठन्ति कायुज्यम् वत्समालभन्ते वायुवभ्यो विपायुधनाम् हेमतावलम्भे आदित्यामयम् वदामालभन्ते यम् यज्ञस्य पुष्टकम् शमयन्ते राजा उच्चो ब्रह्म अह एव लोकेन समर्थयन्ति असोगन्ध एव वैष्क्रियते आध्ये अजगेत् अभैरि ब्राह्मणवन्तः पशवः लभ्यन्ते यः कुर्वदे प्रजावयप्रजा कृत्वा वृत्तो वा तेजस्सम् द्रयणेयमजन्मे महाप्रदत्तम् महद्भदये तन्महाभ्रतस्य महाप्रदत्तम् महता भजये पञ्चविपुंसतिपुंशब्धः एतस्य पञ्चविपुंसमभवने मध्यलक्षियते मध्यो ह्यन्नोचित् अथवा मध्ये एव प्रजानामोधीयते अथैव प्रदर्ते तने पञ्चदश्यः पक्ष भवति सप्तदशवारण्यः तस्मात्त्वया गच्छमपि वर्तन्ते अन्यकल् पञ्चनिपुंसात्मा भवते पुंशम् पुच्छन् विवदा सर्वेण रस्तुवन्ति सर्वेण नित्यापदन्ति येन हि नाम तेजोसंज्ञे आत्मनं कल्याय वत्तान्ये नमामि येन वक्त्वाऽहं हृदयकोरमाय तव लखाले भयराक्खेम च देहि आनय वरं अक्षप्त्यं देहि अवगुं करतल्पारभवे ओजज्ञानमुलं परः ओज्जयमान्नाद् व्यत्यावृत्य कृपया पदयमनुजिदे व्यत्यादे स चेवान्थान्यक्षे कल्पसत्यमभिनयाने कल्पमालिख्य कल्पसत्यमेवाभिनयते यच्च कल्पसत्यमभिनव्यत्या स चेवान्यक्षे कल्पसभ्यम् मा पनाय कल्पमालिख्याध्याये न कल्पसभ्यम् पराजये श्रेङ्खे श्रे महोन्धः यस्यावरुध्ये हे बाहुरा संयत्ताहण्य पालित्य ब्राह्मणस्य श्रोत्रस्य ब्रह्म कर्त्यै हेभ्यो एव न ब्राह्मणः असुभ्यः श्रोत्रः हिरे रास्तु रमेत्यन्यो ब्रूया भूतमक्षणेनादे ब्राह्मणे अनुभेवादित्यम् विन्दन्ते ओ हेदा संयप्ताः सन् हेवालयन्तः न्दविन्दम् जगतोत्सन्नम् तस्य विभक्ते दृष्ट स्वेयः सोमे सोमम् वा जगते ैस् भवते हास्य बाले जायते अन्नम् वैवाजपेगः एवम् वेदा अत्यन्नम् आस्य जायते ब्रह्मवेजपेघः एवम् वेदा हस्य ब्रह्मणान्नम् आस्य ब्रह्मा जायते ेषः <ậpmat puppy ratawweel> ख्यायन्ते हगश्च सर्वदा रामयुग्भागाय हेराये ब्रह्मणश्चाङ्ग्रह्मणश्चाभ्यश्च भवने हिन्दस्य आदुराः हस्वाध्यायश्च मक्षस्य जनप्रदेश्यम् हरिगन्धीयाय समनम् प्रतिगन्धीयाज सर्वे न समाजोऽवलुब्धाः शोभाजमे विहाय राम्नौ यालसन्धये सर्पाद्वाजवेस्ति नः सर्भाष्य समाजोऽवलुब्धाः हे यज्ञलावारुन्धनाग्राख्येल्यावारुन्धना हलिग्राख्या नाम निद्राख्यत्वम् च लिग्राख्याल्यन्द्रे शैवान्ये ग्रहे यज्ञावरुन्धे गत्यावरुन्धे सञ्च गच्छन्ते आङ्गो निज्ञः श्यामानेव निज्ञः यजमानेन्द्रियन्दसीत्या ग्रन्थादेवानाम् प्रमान्नम् ह्योमः सोमग्रहणाम् गृह्णाय एतत् तेजः ह्योमः ब्रह्म एव निजमाने ताचे सोमग्रहणाम् गृह्णाय अन्नश्च एतत् कमलम् ह्युरा अन्नस्यैव समरेण श्रीपुराः प्रजननायुम्भव यत् स्वामः स्वामग्रहणगच्छन्नाश्च अं वदम् वा भद्रेण पञ्चयत्याः अन्नम् नैव भद्राम् अन्धनाख्येन सृजने अन्नश्चमा एतच्छमनम् हितु रामः फल्वे शमनम् आत्मनामायण एतच्छमये जलने हृत्वाग्राग्रहायश्च वञ्चयत्याः आत्मनैवेन सख्याम् सुराग्रहेः हिमेव देयम् लोकमभिदेवेः सत्यम् तेन सोजते पाशुद्ध ैव विशुंसम् पूर्णम् एकथानः युक्ते ब्रह्मवादिना भजन्ते राज्ञमो नोक्ष्यः करोतः अभयस्ताद्वादपे सर्वे यज्ञकृतमानफले खड्जेवनावन्धे हैन्द्राज्ञम् तारसस्याम् मारुत्याभिषस्तोत्रम् एतावम् त्रेण हिममेव लोकमभिजलेन अन्तरिक्षमुक्षेण स्वक्यम् लोकम् स्वत्रेण इन्द्रियमहेन्द्रेन वा देवदेव लोकञ्च वनस्य लोकञ्चाभिदेवा नृत्या वशया सप्तशक्ताया लभूर् सप्तदश प्रजापलेः प्रजापलिः समध्यये ैव ैद्यम् प्रख्यापयते प्रजापति अपन्नदये भवते हस्तान्मस्याः सर्वाम् पायम् वदन्ते आदिक्रन्थ भवति कर्मणः कर्मणः पुरस्काराय हस्तद्वय जयस्या स्वर्गश्च समक्षे पायस्वल् च मध्यस्वजालि नैत्याहीत्य आजस्य लप्तजले माय नित्याः केचैवेयन् स देवावरुन्धे भवेच्यते अप्सन्त नप्सु जलमित्यस्तान् मोलयति अप्सु वा अप्तस्य शरीरम् प्रविष्ठम् कुलेन किलप्सुवन् कोणयति किलेवास्यात्सु प्रविष्टम् स देवावरुन्धे एतम् ेव्यङ्कादेव नमोत्तरोगे आत्मना असमर्थं